अथ सप्तदशाधिकशततमः सर्गः राघवस्त्वपयातेषु सर्वेष्वनुविचिन्तयन् न कारणैर्बहुभिस्तदा इह भरतो दृष्टो मातरश्च सनागराः सा च मे स्मृतिरन्वेतितान्नित्यमनुशोचतः तेन तस्य महात्मनः हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः प्रातिष्ठत सवैदेह्या वैदेह्यालक्ष्मणेन च सोत्रे श्रोत्रेराश्रममासाद्यतम् वन्दे महायशाः तञ्चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् सौमित्रिम् च महाभागम् सीताम् च समसान्त्वयत् पत्नीम् च तमनुप्राप्ताम् वृद्धा मामन्त्र्यसत्कृताम् सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः अनसूयाम् महाभागाम् तापसीम् रामाय चाचक्षेताम् तापसीम् धर्मचारिणी दशवर्षान्यनावृष्ट्या दग्धे लोके निरन्तरम् यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता दश वर्षसहस्राणि यया महत्तपः अनसूयाव्रतैस्तादप्रत्यूहाश्च निबर्हिताः देवकार्यनिमित्तम् च यया सन्त्वरमाणया दशरात्रम् कृता रात्रिः सेयम् मातेवतेन घा तामिमाम् सर्वभूतानाम् नमस्कार्याम् तपस्विनीम् अभिगच्छतु वैदेही वृद्धामक्रोधनाम् सदा एवम् ब्रुवाणम् तमृषिम् तथेत्युक्त्वा स राघवः मालोक्य धर्मज्ञामिदम् वचनमब्रवीत् राजपुत्रिश्रुतम् त्वेतन्मुनेरस्य समीरितम् श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनी अनसूयेति या लोके कर्मभिः ख्यातिमागता ताम् शीघ्रमभिगच्छ त्वमभिगम्याम् तपस्विनी सीता त्वे तद्वचः श्रुत्वा राघवस्य यशस्विनी तामत्रिपत्नीम् धर्मज्ञामपि चक्राममैथिली शिथिलाम् वलिताम् वृद्धाम् जरापाण्डुरमूर्धजाम् सततम् वेपमानाङ्गीम् प्रवाते कदलीमिव तु सीता महाभागामनसूयाम् पतिव्रताम् अभ्यपादयदव्यग्रास्वम् नाम समुदाहरत् अभिवाद्य च वैदेही तापसीन्ताम् दमान्विताम् बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ततः सीताम् महाभागाम् दृष्ट्वा ताम् धर्मचारिणी सान्त्वयन्त्यब्रवीद्वृद्धा दिष्ट्या धर्ममवेक्षसे त्यक्त्वा ज्ञातिजनम् सीते मानवृद्धिम् च मानि वने रामम् दिष्ट्या नगरस्थो वनस्थो वा शुभो वा यदि वा शुभः यासाम् स्त्रीणाम् प्रियो भर्ता तासाम् लोकामहोदयाः दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः स्त्रीणामार्यस्वभावानाम् परमम् दैवतम् पतिः नातो विशिष्टम् पश्यामि बान्धवम् विमृशन्त्यहम् सर्वत्र योग्यम् वैदेहि तपः कृतमिवा व्ययम् नत्वेवमनुगच्छन्ति गुणदोषमसत् स्त्रियः कामवक्तव्यहृदया भर्त्रनाथाश्चरन्ति याः प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशम् च मैथिली अकार्यवशमापन्ना स्त्रियो याः खलु तद्विधाः त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा तदेवमेतम् तमनुव्रता सती पतिप्रधाना स भयानुवर्त्तिनी भवस्व यशश्च धर्मम् च ततः समाप्स्यसि इत्यार्षे श्रीमद् अयोध्याकाण्डे सप्तदशाधिकशततमः सर्गः